मार्कण्डेयपुराणम् अध्यायं 22 टु पुत्राभूचतुः ततःकाले वहुतिधे कदे राजा पुनसुतं सुतं प्राह विप्राणां त्राणाय चरमे दिनी अश्वमेनं समारुह्य प्रादप्रादर्दिने दिने, दिने। अबाधा द्विजमुख्यानामन्वेष्टव्या सदैव हि दुर्वृत्ता सन्ति दानवा दानवाः पापयो नयः तेभ्यो न बाधा मुनीनां त्वं तथा कुरु स तथा चक्रे नृपात्मजः परिक्रम्य महीं सर्वां भवन्ते चरणौ पितुः अनुप्राप्ते पूर्वास्ने नृपनन्दनः ततश्च शेषं दिवसं तयारेमे सुमध्यया ये गादुर्चारं शोध ददर्श यमुनातडे पातालकेदोरनुजं तालकेदुं कृताश्रमं मायाविदानवसोधमुनिरूपं समास्थितः सप्राहराजपुत्रं तं पूर्ववैरमनुस्मरन् राजपुत्रब्रवी ताकुष्व नचते ने प्राथनाभंग कार्य सत्यवक्ष्येय यथेषय चितयत्तत्र कर्तव्या नास्ति मे दक्षयिणायधः अधः प्रयच्छ मे वीरहिरण्यार्थं स्वभूषणं यदेतत्कण्डलग्नं ते रक्षेममाश्रमं यावदन्तर्जले देवं वरुणं या वैदिकैर्वारुणैर्मन्त्रैः प्रजानां पुष्टिहेदुकैः अभीष्टो यत्त्वरायुक्तसमभ्ये मेधिवादिनं सम्प्रणम्य तदप्रादात् स तस्मै सतस्मै प्राहयैनं भवान् यादो निर्व्यलीगेन चेतसा तास्यामि तावदत्रैव तवाश्रमसमीपतः तवा देशान्महाभाग यावदागमनं तव न तेऽत्र कश्चिदा बाधां करिष्यदि महि स्थिते पुत्रावोचतुः एकमुक्तस्तदस्तेन सममज्जनदीजले ररक्षसोऽपि तस्यैव मायाविहितमाश्रमं गत्वा जलाशया तस्मात् तालकेतुश्च तत्परं मदालसायाः प्रत्यक्षमन्येषां चैदुक्तवान् तालके दुर्वाच वीरकुवलयाश्वोऽसौ ममाश्रमसमीपतः केनापि दुष्टदैत्येन केना, कुर्वन् रक्षां तपस्विनां युध्यमानो यथा शक्रिनिघ्नन् ब्रह्मद्विषो युधिर् मायामाश्रित्य पापेन भिन्नशूलेन वक्षसि म्रियमाणेन तेनेदं दत्तं मे कण्ठभूषणं प्रापितश्चाग्निसंयोगं सवने शूद्रतापसैः कृतार्थह्रेषा शब्दो वैत्रस्तः साश्रुविलोचनः नीतस्सोश्व शतेनैव दानवेन दुरात्मना यदन्मया नृशंसेन दृष्टं दुष्कृतकारिणा यदत्रानन्तरं कृत्यं क्रियतां तदकालिकं हृदयाश्वासनञ्चैदद् गृह्यतां कंठभूषणं नास्माकं हि सुवर्णेन कृत्यमस्ति पुत्रावोचतुः युत्युक्तोत्सृज्य सजगाम यधागदं। निपपाद यथा गदं निपपादजनशोधशोकार्तो मूर्च्छयातुरः तत्क्षणाच्चेदनां सर्वास्ता नृपयोषितः राजपत्न्यश्च राजा विलेपुरदिदुःखिताः मदालसादुद्धृष्ट्वा तदीयम् कण्ठभूषणम् तत्या जाशुप्रियान् प्राणान् श्रुत्वा च निहन्तपदिम् ततस्तधा भवनेश्वभूद पौराणां यथैव तस्य नृपदे स्वगेहे समवर्तदा। राजा च मृदां दृष्ट्वा विना भर्त्रा मदालसां प्रत्युवाच जनं सर्वं विमृश्य सुस्थमानसः नरोदितव्यं रोदितव्यं पश्यामि भवदामात्मनस्तथा सर्वेषामेव संचिन्त्य सम्बन्धानामनित्यतां किन्नु शोचामि तनयं किं नु शोचाम्यहं स्नुषां विमृश्य कृदकृत्य त्वां न म्ये शोच्यावुभावपि मच्छ्रुश्रुपुर्मद्वचनाद्विजरक्षणतत्परः प्राप्तो मे यः सुतो मृत्युं कथं शोच्य स धीमताम् अवश्यं यादि यद्देहं कृते यदि मम पुत्रेण सं त्यक्तं इयञ्च सत्कुलोत्पन्ना भर्तर्येवमनुव्रतां मनुव्रदां नु शोच्या नारीणां भर्तुरन्यन्न दैवतं अस्माकं बान्धवानां च तदान्येषां दयावतां शोच्या भवेदेवं यदि भर्त्रा वियोगिनी यादु भर्तुर्वधं श्रुत्वा तत्क्षणा देवभामिनी भर्तार न नशोच्यादो विपश्चितां ता शोच्याया वियोगिन्यो न शोच्याया भर्त्रा वियोगस्त्वनया नानुभूध कृतज्ञया दातारं सर्वसौख्यानामिह चामुत्रचोभयोः लोकयो काहि भर्तारं नारीमन्येदमानुषं न सौ शोच्यो न चैवयं नाहं तज्जननी न च प्राणान् सर्वे तारिताः विप्राणं मम धर्मस्य गतः सहि महामतिः त्यागाद्देहस्य मे सुतः मा दुःसदित्वं मध्वंशवैमल्यं शौर्यमात्मनः सङ्ग्रामे सं त्यजन्प्राणान्नात्यजद्विजरक्षणम् पुत्रावोचतुः ततः कुवलयाश्वस्य मादा भर्तृरनन्तरं श्रुत्वा पुत्रवधं तादृक्प्राह दृष्ट्वा तु दं पतिं माधोवाजा न मे मात्रा न मे स्वस्त्रा प्राप्ता प्रीतिर्नृपे दृशी श्रुत्वा मुनिपरित्राणे कदं पुत्रं यदा मया शोचतां बान्धवानां ये निःश्वसन्तोदिदुःखिताः म्रियन्ते व्याधिना क्लिष्टास्तेषां मादा वृथा प्रजा सङ्ग्रामे युध्यमाना भीदा गोद्विजरक्षणे क्षुण्णा शस्त्रै विपद्यन्ते त भुवि मानवाः अर्थिनां मित्रवर्गस्य विद्विषाञ्च पराङ्मुखः योनयादिपितातेन नयाधिपिता तेन पुत्री च वीरसूः गर्भक्लेशस्त्रियो मन्ये साभल्यं भजदे तदा यदारिविजयी वा स्यात् सङ्ग्रामेवाहदः सुतः पुत्रावोचदुः तदः स राजा संस्कारं पुत्रपत्नीमलम्भयद निर्गम्य च बहिष्णादो ददौ पुत्राय चोदकं तालके दुश्च निर्गम्य तदैव यमुना जलाद राजपुत्रमुवाचेदं प्रणयान्मधुरं वचः गच्छ भूपालपुत्रत्वं कृतार्थोऽहं कृतस्त्वया कार्यं चिराभिलषितं त्वय्यत्राविचले स्थिते वारुणं यज्ञकार्यं च जले शस्य महात्मनः तन्मया साधितं सर्वं प्रणिपत्य सदं प्रायाद्राजपुत्रः पुरं पितुः समारुह्य तमेवाश्वं सुपर्णानिलविक्रमम् इति श्रीमार्कण्डेयपुराणे कुवलयाश्वीये मदालसावियोगो नामद्वा नाम ओ